विषा च पुरा यर्यश्चोखायागम् समितमिति चदसृभिः सन्निपति चत्वारि छन्दागुंसि छन्दागुम्सि खल्वाज्ञातनो यैनौ तनुभासगुंसामितमित्याहतस्मात् ब्रह्मणा क्षयन्ति मातेव पुत्रं पृथिवे पुरेत्याहतिभिरेवयत्तर्युञ्च देवैश्वानर्याशिक्ष्यमादत्ते स्वदयत्यैरृते कृष्णाश्चिस्रस्तुषभक्वा भवन्ति निर्लज्जैवा एतद्भागधैर्यलज्यै रूपं कृष्णगं रूपेण निरवदय दैवान् देशान् निरजैदिक्स्वायामेव निरपदयतेश्वपधारि वैतद्वै निरजनग्रस्वगेवायतने निरजन् निरपदयदेशित्यमभ्युपधारिनेरता वै पाशः साक्षादेवैनन्निरलति पाशान्मुञ्चरिति स्वमुपदधादित्येथाभिहितो पुरुषो यावान् निरतिं प्रणृतय प्रत्यक्षमायन्ते निरृत्वापतिष्ठन्तयकारभवत्यमुपतिष्ठन्त निरति लोकयैव जलित्वा भूतादेव लोकमुपावर्तन्त योपतिष्ठन्तर्यन्तमनापसो नामित्याह प्रजा वै वसु प्रजगैवै समर्थयन्ते मात्रै न विमेते नवे पुरुषः संवितो यज्ञपरुषैवैनं विमिमेते यान् पुरुषभूर्भवास्ताभान्भवैतावद्वै पुरुषैवेर्यम् वैर्ये नैवैनं विमेते पक्षे भव दिनख्य पक्षः पलितुमृहत्तरत्रया पक्षौ द्यागे यागं सौ भवतस्तस्मात् पक्षप्रभयागुं शिवयागं च्छतावद्वे पुरुषे वैर्यं वेर्येण स्वया कृषदेव्यावृत्तेषद्गवेन कृषति षड्वारुत परिषेवेण कृषति यद्वादश गवेन संवत्सरेणैवेयं वाग् रचिताहादुभे गुणमपश्यत्कृष्टञ्चाकृष्टम् चिमानाद्यत्कृष्टञ्चाकृष्टम् च भवत्यस्यायद्विगुणन्ताभ्युध्यन्तर्हते यत्कृष्टञ्चाकृष्टञ्च भवत्यग् नुष्पादश्च प्राणमुत्सृजयक्षिणाैता न्ते तस्माद् दक्षिणार्थावेत्पदोत्यस्यैवावृतमनोपर्यावर्तन्ते तस्मात् पराञ पदवतिष्ठन् प्रत्यञ आवर्तन्तर्यादय चोषेर्वपदि ब्रह्मणान्नन्धेर्के कश्चिर सप्तग्रा प्तारण्या उभयेध्यान्नस्यान्नस्य भवत्यन्नस्यान्नस्यावरुध्ये दृष्ट्युष्टे चोडदय प्रतिष्ठन्वशेदा द्वादशमाधा संवत्सर संवत्सरेणैव स्वान्नं वरुद्ध श्री यादवरुद्धे न व्यध्येतय वनस्पतीनां परग्रहश्चा निध्ये विप्राक्षयनवरुद्धवरुद्धे ऋग्य लोष्ठान् समस्तमेव्याद्यमाहरे तस्येशोऽपरुन्धे शोधुका भवस्तस्याम् ऋषि भवत्युत्तरवेदिमुपभवत्युत्तरवेद्यागज्ञनिश्चीयते त्वशो वामुत्तरवेदे प्रसूने वापरुन्धे सो यज्ञपरुषोऽन्तरित्यै ज्ञेतवश्रमोपयैति चिकतानिपपत्येतद्वाग्नेर्वेश्वा नरस्य सोक्तव्यम् सोक्तेनैव वेश्वा नरमवरुन्धे षड्भिर्निवपति षड्वार्दवः संवत्सरः संवत्सराज्ञश्वा नरः साक्षादेव वेश्वानरमवरुन्धे समुद्रम् वेदामेतच्छन्दः समुद्रमनः प्रजाः प्रजायन्ते यदेतेन सिकता निवपते प्रजाना येन्द्रोत्राय वज्रं प्राहरत्रयधास्येन्द्रन्तता शर्करा भवन्तर्कराणां वज्रे शर्कराकराभिरग्निं परिमिणोदिगृह्णाति तस्मात् वज्रेण परिगृह यथो नोपहरते त्रिसप्ताभिपशुकामश्च परिमिलयात् सप्तमेशी प्राणा प्राणा पशवः प्राणेरेव श्रीपशो नवन्धे त्रिनमाभिर्भ्रातुं यदस्त्रिपदेव वज्रगम् सम्भ्रत्यभ्रातुं यानप्रहृष्ट्यावलमिनाभिपरिमिलयादवलमितस्यावलुध्येयङ्कामये दाभस्या नित्यवलमित्य स्य कदा व्योहेतपरिगृहेतयाश्च विशोतेन कौलेदः पराजयश्चपसुरेव भवति परिमित्य शर्करास्य कदा परिगृहेतयास्मै समेतेन कुण्डेतस्य पशुपानेव तद्यशादि गायत्र्याभ्या मनस्य गायत्रोभिभ्रा मनस्कृष्ट्वा राजन्यश्चत्रैश्च भो हि राजन्यश्रयं धो नस्वाग्ं प्रापिषत्सोग् कृष्णो रूपं कृत्वा पि शत्सोश्वस्यावान्तरदो भवयेव मेधो स्वम्प्रापि शतमेवावरुन्धे प्रजापतिनाग्निश्च त्याहु प्राजापत्यो समाग्मय प्रजापतिमैवाग्नुते पुष्कर मन्दमुपदधानियो निर्वाज्ञेः पुष्करवर्णगम् सयोगिमेवनुवाम् ब्रह्मजज्ञानमिति रुक्ममुपदधाति ब्रह्ममुखावे प्रजापद प्रजा असृजत ब्रह्ममुखावेवं वेद ब्रह्मवादिनावृथिव्याज्ञश्चेतव्येद पृथिवेत्मजौषधयो वनस्पदयः र्पयेन्नवर्युमुपदधा चमृतं वेहिरण्डमुपदधा जयजमानलोकस्य विधृत्ते यदिष्टकायादृन्दमनोपदध्या पशूनां जयजमानस्य च प्राणमपि दक्षिणदः प्राजमुपदधानिकपशूनां च प्राणमपि दधात्य सल्विष्टका आदन्नमलोपदधाति प्राणामुत्सृष्ट्यै द्रक्षस्त स्कन्दत्यभिवृषोत्रा प्रतिष्ठापयति सृताश्च पौर्णान्तामये दधः पूर्णामौदुम्बरे ेवर्यमयसा मौदुम्बरिहति दक्षिणाङ्काश्चर्यमयेमुत्तरा मौदुम्बरे तस्मादस्याोत्तराज्यस्य पौर्णाङ्कापर्यमयें वज्रवाज्यं वज्रः काष्पर्यावज्रेणैव येज्ञस्य दक्षिणदारक्षागस्य धादिपूर्णे येन ममुष्मन् लोकमुपतिष्ठेश्चे विराज्यजा उपदधाति विराज्येवाक्यञ्चनुके यज्ञमुखे वै क्रियमाणे यज्ञौ लक्षागं सन्ति यज्ञमुखगौ रुक्मा यद् ेव रक्षागस्य वहन्ति पञ्चभिर्व्याघारयति कान्तो यज्ञो यावानेव यज्ञस्तस्माक्षागस्य वहन्त्यक्षया व्याघारयति तस्मादक्षया बलवाङ्गानि प्रहरन्त्य प्रतिष्ठित्यै स्वयमातर्णामुपधातियं वे, वे स्वयमातर्ने मामेवोपधत्ते शमुपघ्रामयति प्राणमेवास्यापत्यो वाष्टप्रापदने वाग्नि प्रथमेऽष्टकीयमानावशोनाञ्चरमानस्य प्राणमपि दधाति स्वयमाधर्णाभवति प्राणानामुत्सृष्ट्यासाधुभागश्च लोगस्यालुख्यात्याज्ञा व्यत्याहुरे स्वानो यद्नस्तस्मै प्रथमाविष्टकां यकृतां प्रयच्छेत् तां रां भनश्चोपदध्यानामज्ञा वेहन नित्यहृदयेश्वरो वारेणो विद्वामिष्टकां हृदधारित्रे वराहं दध्या प्राणावेकये गोहि प्राणः पशुर्वादग्न खलु वै पशवाय वदे रमन्ते दोर्मे काम तथा पशूनां धृत्ते द्वाभ्याम् प्रतिष्ठत्ते काण्डाः काण्डा प्रोहन्तेत्याह काण्डेन काण्डेन त्येजा प्रतिष्ठत्ते वा त्याहदाहस्य प्रजापदय प्रजापदे नाप्त्यै देव लक्ष्मम् वै प्रियालखिता तामुत्तरलक्ष्माणम् देवा उपादशदासलक्ष्माणमसुरायङ्कामये तपसीयान् चादित्युत्तरलक्ष्मानन्दस्योपदध्याद्वसीयानेव भवमये दपापीयान् चाणित्य सर् लक्ष्माणन्दस्योपदध्यादश योनिमेवै नुपदाभावय दृपाया भवति प्रिया लिखिता भवति मे लोकालिखितेभ्येव लोकेभ्यन्तरेऽत्यङ्गिरथस्वर्गं लोकञ्जतः पुरोटादः कोर्मो भूत्वानप्रासत्पद्यत् कोर्म यथाक्षेत्रानयत्येवमेवनं कौर्मस्वभर्गम् लोकमञ्जसानयति मे भवा एषूनां यत् कोर्म यत् कोर्ममुल्लिस्व मेधम् पश्यन्तः पशवमुपतिष्ठन्ते श्मशानम् वा एतत्क्रियते यन्मृता पशो नागंशेर्षान्युपधीयन्ते यज्जीवन्तम् कोर्णमुपधारिते श्मशानयद्वास्तव्यो भागेत यत्कोर्वातायदयद्रामधुमिश्रेणाभ्यस्पदयत्येवेन ग्राम्यम् वा एतदन्नध्यारण्यम् वधुयद्द्रामधुमिश्रेणा स्यावरुद्धे महेत्याः पृथिवे च नोमेम् ते योपामग्निम् प्रविशेषरोंसि वा अग्नेर्नाभिस्तनाभिमेवाग्निञ्चिनुगुन्धाया औदुम्बरं भवत्योर्वादुम्बहोर्जमेवावृन्धे मध्यत भुपदधा जमध्यदेव स्वावोर्जन्धा च स्वाहन् मध्यद भूर्जा भुञ्जतैयद्भवति प्रजापतिना युज्ञमुखे रसंविनमहन्त्यन्नमेवागर्वे नव्यच्चोपदधा जविष्णर्वे यज्ञो वैष्णवामनस्पदयोर्यज्ञ ेव यज्ञम् प्रतिष्ठापयते ेषाम् वा येतल्लोकानाम् ज्योतिस्तम्भदय सुखाय सुखामुपदधास्तेभ्यदेव लोकेभ्यः द्योतिनवरुन्धे मध्यतमुपदधाति मध्यत एवास्मै ज्योदन् दधाति तस्मान् मध्यतो ज्योतिरु स्महे चिकटाभिक्पूरयत्ते तद्वाग्ने वैश्वानश्चेणैव वै श्वानलमवरुन्धेयम् कामये रक्षोधकस्यादित्यो नस्योपदध्याक्षोधक देव्यादितिपूर्णापदध्यादनुपदस्य देवान्नमत्तिरहस्रं वेशूनाण्यक्षरिदहस्रमण्ये पशो मध्ये पुरुषवे ऋणो दधा योखायामपि तथापतिष्ठामेवैनद्गमय विद्यर्थम्बात्प्राणेन मेऽभ्यं यत्पुरुष प्राणामृतकम् हिरण्यम् प्राणेषु हिरण्यशङ्काण्ठामेवैनद्गमयित्वा प्राणे समर्थयति दद्धा मधु मिश्रेण पूरयति पध व्याधाने नेद्ध्यत्वा यद् ग्राम्यम् वा ये नै यद्दध्यारण्यम् मधु यद्दध्रामधुमिश्रेण पूरयत्युपयस्यावलुब्ध्ये मधुशीर्षान्युपदधानिभावे पशुशीर्षा रुन्धे जङ्कामयेजस्यादिति पिशोचेनारितस्य पदध्यात् विशोच एवास्मात् पशोन् दधात्मपशुरेव भवति समेतेनारितस्य पदध्यात् समेत एवात्मै पशोन् दधा दिवसुवानेव भवतिपदस्तात् प्रतीते नमस्पश्चिवश्चात् प्राजेन वृषभस्यापजवो वा अन्येको अस्य स्मानेवास्मै समे पसवाद्यपादश्चादेन प्रदथामेत्याह्य एव पशुभ्यन् पशोचुचमनोत्सृजितस्मावत्पशो नाम् प्रजायमानानामारण्या पजवः करीजा ैवृन्धे यत् समेचीनम् पजुर्णेनेवृन्धेया सर्पेण ग्राम्यान् पचो निरस्ति नारण्यान सकलोपधेयमेव यदुपदधान् विषयोन्धेया सत्वे यद्य यत्काय न शांतं पशुर्वा येषयदज्ञा पशोर्भिक्रियते यत् प्राचीनमेष्टेतोपस्यापस्या उपदधा नियो न वेवतो तथाधिपञ्चोपदधान्ताः पशवः पशो नैवास्मै प्रजनयधिपञ्च दक्षिणतो वज्रो वाज्रेणैव यज्ञस्य दक्षिणतो दक्षागस्य वहन्निपञ्चपश्चाच्यापदधा प्राचीनगौरेतो धीयते पश्चादेवास्मै प्राचीनगौरेतो दधा त्रिपञ्च पुरस्तात् प्रदेते नदधा त्रिपञ्च पश्चात् प्राचेत्तस्मात् प्राचीनगुरेतोधीयते प्रदेते प्रजायन्ते पञ्च प्रदच्छन्दस्या पशुभूमेन्दस्या पशुमेव प्रजातां स्वमायतनमभिवर्यो हरे ैता अवस्यापश्यता उपाधत्त उपदधा यस्यानयत्स ब्रह्मणान्न यस्यैता उपधेयान् तैयमुचैना बदधादि दे ै पुरस्तादुप तथा प्राणमयमेताभिर्दाधारायन्दक्षिणा विश्वकर्मेति दक्षिणतोमलगेवेताभिर्दाधारायम् चक्षुरेवेताभिर्दाधारेगमुत्तरा स्वरित्युत्तरश्रोत्रमयवेताभिर्दाधारेगमुपरिमदुपरिष्टाद्वाजमेवेताभिर्दाधारोपवे दक्षिणाप्रहरन्प्रतिष्ठित्ते यास्प्राजेस्ताभिर्वजिष्ठार्धाद्या दक्षिणाताभिर्भरद्वाजो याः प्रदेजेस्ताभिर्विश्वामित्रो या उदेशेस्ताभिर्जमदग्भिवोर्ध्वास्ताभिर्विश्वकर्माज एव मेता सामृद्धिं वेदर्ध्वात्यैव जमादाभेवं बन्धुतान् वेदबन्धुवान् भव ेन कल्पतेच्छति प्राणभदौपधाय संयतौ पदधानि प्राणानेवास्मिन् धित्त्वा संयज्ञागं संयत्तमो प्राणयेनन्दधारितस्मात् प्राणापानौ सञ्चरतो विशोचेपधारित ्युष्पञ्च प्राणापादो यद्वा अग्नसंयदमसुवर्गमस्य तत्सुवर्गत्संयतवदधासमेवैरच्छति सुवर्ग्यमेव कश्चयित्याहवयोभिरेव यानवन्धे सर्वतो मायते भवन्ति तस्मादृगौ सर्वतः पवते गायत्रे तृष्टब्जगत्य दृष्टक् पङ्क्ता सह बृहत्युष्ण्यः त्रोचेभिः शिम्यम् दत्वा त्रिपदाय च त्रिपदाय ऋषत्पदाच्छन्दायाधिच्छन्दात् शोचेभिः शिम्यन् दत्वा महानान् विश्वा प्रसो वरेः मेध्या विद्युतो वादः शोकेऽभिः शृं्यम् अश्वस्य वाजिनः प्रति शोचेभिः शिम्यन् दत्त्वा नारे देवप्रयाणामविचिन्वन्तु मनीषयाः दुत्वा कुबिलङ्कयवमन्तोजवञ्चद्यथान पूर्वम् वियोज हे हैषाम् कणुत भोजनालये परिषा न स्तिकस्ते गात्राणि शिम्यतिवा कविः विशासतोधा विधा शिमेभिः शिम्यन्तत्वा देव्याद्धर्यवस्थान्त गात्राणि पर्वशस्ते शिवाक्रण्वन् दशम्यन्तः अर्धमासाः परोकुंषिते मासाम् निशिम्यन्तः अहोरात्राणि मरुतो विलिष्टकम् सूचयन्तु तेऽन्तरिक्षेण वायुश्चित्रम् भिरज्यतो योऽस्ते नक्षत्रैः सह लोकम् कृणोतु साधुया सन्ते परेभ्यो गात्रेभ्यः समस्त्वपरेभ्यः शमस्त्वभ्यो मर्गभ्यः समुदे तनुवे भवे उत्सन्नयज्ञो वान एतज्ञः किम्बा हैतश्च क्रियते किम् बालयद्वे यज्ञश्च क्रियमाणस्यान्तरयन्ति पूजति मानस्तश्विनेनुपदधान्यश्विनौ वेदेवानाम् पञ्चपदधाति मान्तो यज्ञो यावानेव यज्ञस्तस्मैपदधात्ूनाङ्लप्ते पञ्चपदधाति पञ्चमार्तवो यावन्तके मस्तवस्ताङ्कल्पयति समानप्रपदन्ति समानो दर्कास्तस्मात् समानार्तवनेकेन पदेन व्यावर्तन्ते तस्मादृतवा व्यावर्तन्ते प्राणभदमुपदधात् ेव प्राणान्तसाधितस्मात् समाना सन्तरोनयत्येवैनादेश वैवायुर्य प्राणो यथव्यापुपधाय प्राणभृतमुपदधातस्मात् सर्वानतो ननु वायुरावरिवर्ति वृष्टिपदधा वृष्टिमेवावरुन्धे कथोपदध्यादेकभृतम् वर्णे धनुपरिहारकम् साधयदि तस्मात् सर्वानतो न वर्षजे नेत्राणभृतपधाय वृष्टिसलेन पदथा प्रक्षिता दिवो वृष्टिने भजवो वेव यस्या नानामलसः खलु वे भजवो नानावृथास्तेभेवाभिषमलसोऽयङ्कामये कामशिस्यादिवयस्या तस्यापधायापस्या उपदध्यातसम् पशुभिः कलौ प्य पशुरेव भवशुमान् चादित्यपस्यात् तस्योपधाय वयस्यानुपलब्ध्यात् सञ्ज्ञानमेवाे पशुभिः कलौति पशुमानेव भवति तस्य पुरस्तादुपदधाति तस्मात् चत्वारि चक्षुषोरूपाणि द्वे शुक्ले द्वे कृष्णे मो धन्वदे भवन्ति तस्मात् पुरस्तान् दक्षिणा यागश्वान्यामुपधाति पञ्चोत्तरस्यान्तस्माद्वणः पशुद्भस्तोपयिति दक्षिणे कुम्भमुपदधाति कृष्णर्म युत्तरे दक्षिणे पक्षमुपदधातिभोपयित्युत्तरे पक्षगेव पुरुषोपयि निवध्ये तस्मात् पुरुषः पशो नाम धिपतिः इन्द्राज्ञे अव्यधमानामि निःस्मयमादर्णामुपधानेन्द्राज्ञाम् वायमो लोको योर्लोकयो विधृत्या अध ते भवारे नायन्मध्यमाचलिरन्तरिक्षमे भवायन्द राज्ञेन्द्राज्ञे वै देवानामोजो भाजदेवैनामन्तरिक्षे जनते धृत्यै स्तय मातृम्णामुपदधात्यन्तरिक्षं वै स्थयमातृम्णान्तरिक्षमेवोपधत्ते स्वमुपघ्रापयति प्राणमेवास्या प्राजापत्य वा प्रजापतिना भवते प्राणा सुवर्गस्थ लोकस्यानुख्यात्यै देवानांकञ्जयतान्वयन् दपगेतादिश्यापश्यन्ता उपाधता वै पुरुष प्राणाभक्तसमे प्राणादेव पुरस्ता भक्ते तस्मात् पुरस्तात् प्राणाज्योतिस्पदेमुत्तमामुपदधाय तस्मात् प्राणानाम् माग् ज्योतिरोत्तमान् दोपदधाक्षरा विराग् विराक्षन्दधा ज्योतिर्ज्योतिरेव पुरस्तात् पुरस्ताज्यो विरूपा स्पहेन्दाः पशुच्छन्दे वा दक्षिणावृतो मासा पृथिवेन्दयति पश्चात् पुरिष्ठित्याुत्तरतवोजो वा अग्निनो जगेवोत्तरतो धत्रे तस्मादुत्तरतोऽभिप्रयागीते क्षत्रविंशत् सम्पद्यन्ते क्षत्रविंशवास्मे वसो न परन्ते बृहदेशं च स्वारा जम्परीया यस्यैता उपधीयन्ते गच्छति स्वारा जगुंसप्तवाल्या पुरस्तादुपदधाति सप्त पश्चात् सप्तवेशेर्हि प्राणाद्वाववाहं च धिराणि पुनस्तादुप तथाधियन्त्रे राणि प्राणाने प्राणानेवास्मै समीचो तथाति यद्यज्ञे कुर्म तसुराव कुर्म ते देवायेता अक्षया स्तोमीया अपश्यन्ता अन्यथा नो चान्यतो सुन्ववायन्तो देवान्मरा सुरायरक्षया स्तोमीया अन्यथा परस्तादुपदधा त्युत्तरत भोजो वेभान्तोजः पञ्चदश भोजनेवोत्तरतो दत्ते तस्मादुत्तरतो पुरस्तादुपदधाुवताज्ञमुखे वियाजयत्यभिमर्तस्य विगुंसै दक्षिणतान्नम् वा अभिमर्तान्नस विपुंसान्नमेव दक्षिणतो धत्तस्मा दक्षिणे विलाजो विलाजो पश्चाद्यस्तस्माच्छव्यस्तपस्मितरोश्चतुर्विपुंश इति पुरस्तादुपदधाति चतुर्विगुंशत्यक्षरा गायत्री गायत्री यज्ञमुखमेव पुरस्ताद्विगार पञ्चविगुंशै च दक्षिणतोऽन्नं वे गर्भान्नं पञ्चविपुंशान्नमेव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्नमद्य तपोजस्त्रिणभैति पश्चादिमेव लोकास्तृणभयेत्येव लोकेष् प्रतिष्ठति सम्भरणस्तयो विपुंशेत्युत्तरतस्तस्मात् सर्वयो हस्तयो सम्भार्यतरः कृतवेगस्त्रिपुंशेति पुरस्तादुपदधाति वा भाग्यज्ञमुखमेव पुरस्तात् प्रियादयति ब्रस्य विष्टवम् चतुस्त्रिपुंसयति दक्षिणतो भौवादिष्ट्रस्य विष्टवम् ब्रह्मवन्त दक्षिणतो धत्रे तस्माद् दक्षिणात् ब्रह्मवत् त्रितरप्रतिष्ठात् त्रयस्त्रिपुंसयति पश्चात्पृतश्चेनागश्च त्रिपुंसयचस्तरदस्तु भर्गो मे लोको नागस्तु भर्गस्य लोकस्य समस्त्यै अग्ने भागोधेति पुरस्तादुपदधायज्ञाग्नि यज्ञमुखम् धेक्षालज्ञ पुरस्ताद् विजातयति नृत्यक्षसा भागवधेति दक्षिणत शुश्रुवायुम् सौमे नृत्यक्षताम् न जाता यैवास्मा अन्नमपि दधाति तस्मा जातोन्नमस्य जलत्रयत्याह ्रवन्नकं सप्तदशोऽन्नेव दक्षिणतो धत्ते तस्माद् मित्रस्य भागो जेति मश्चा प्राणो वै मित्रापानो वरुणः प्राणापाना दिवो वृष्टिर्वादास्मृताय कविगुंसस्त्वा मयित्याः प्रतिष्ठा वागैकविगुंशप्रतिष्ठित्या इन्द्रश्च त्रभोजः पञ्चदशभोजगेवोत्तरतो धत्तस्मादुत्तरतोभिप्रयायेजयति वसूनां भागो सेति पुरस्तादुपदधानयज्ञो यज्ञमुखगौरुद्रायज्ञ पुरस्तात् वियानयत्यादित्यानाम् भागो सेति दक्षिणादित्यां मरुतोन्नं पञ्चविगु न्नमेव दक्षिणतो धत्ते तस्माद् दक्षिणेनान्न मध्ये भागो सेजपश्चा प्रतिष्ठा वा अदिजः प्रतिष्ठा भूषा प्रतिष्ठात् नवप्रतिष्ठित्ते देवस्युत्तरतो ब्रह्मवे देवस्य विता ब्रह्म बृहस्पति ब्रह्म च दष्टा वा ब्रह्मवर्चतमेवोत्तरतो धत्ते तस्मादुत्तरात्र े तस्माद् ब्राह्मणामुदीतिप्रसूता धर्तश्च दष्टोम यदि पुरस्तादपदधादि यज्ञमुखं वै धर्तो यज्ञमुखं च दष्टोमो यज्ञमुखमेव पुरस्तात् नियादयति यावानां भागो देति दक्षिणतोमासा वै यावा अर्धमासा अयाभास्तक्षिणावृतोमासा अन्नं वै अन्नं प्रजा अन्नमेव दक्षिण तो धत्वेतस्माद् दक्षिणेनान्नवजूनां भागोऽधीति पश्चात् प्रतिष्ठिते विभक्त्वाष्टा चत्वादिपुंशयत्युत्तरतोदिमौ लोकौ समापद्यो यस्य मुक्षपदे पुरस्तादुपधीयन्ते मुक्षरे भवत्यापदेर्दक्षिणतोन्नमास्या य देयस्य प्रतिष्ठावदे पश्चात्प्रत्येव सौजस्पदे नवोजस्येव भवत्या सौजस्तेजायते कोमाले वेदग्निस्तस्यैजदेवस्त्वात्रमेतच्छस्त्रै ये च विधा विधीयते यस्यैजाविधा विधीयते यौ चैनानेनुप ृष्टमेवावरुन्धेन वा इदन्ति वाणहक्कमाधेतव्यावृत्तम् च देवानेताव्यष्टेन पश्यन्त उपादशरतो वा नि्यो वोच्छद्दस्तेका उपधीयन्ते देवास्वावोक्षद्यथोत्तम एवापहते अग्ने जातान् प्रणुधानस्वपत्राणिति पुरस्तादुपधादिजातानेव भ्रातु प्रणुदले सहसा जातानिति पश्चाद्यमाणानेव प्रतिमृदलेत्वारिपुंशस्त्व मयि दक्षिणतो ब्रह्मवत् ोत्तरतो धत्ते तस्मादुत्तरतोऽभिप्रयागे जय जिवज्रोगे चत्वारिकंसो वज्रश्रो नो जपदधाति जातायुश्चैव जष्यमानागश्चभ्यादुर्व्यान्वज्रमयम् प्रहरिश्चै पुरेशवजे मध्यमुपदधाति पुरेशम् वै मध्यमात्महस्तात्मानमेवाग्नते मुष्कल्लाके भवति य एवं वे नैतावा समत्वाय श्रेतामुपधीयन्ते नास्य समत्वा भवति पशुर्वा यं विराजमुत्तमायाञ्चित्यामुपधाति विराजमेवोत्तमां पशुषदधा गं लोकमायन्ते तपोदप्यन्ततानि तपसा दृश्यन्ते र्वैरेव चन्दागंसि सुवर्गायते रेव यजमानस्वभर्गण् कवे न वे प्रजापदप्रजा असृजदता स्तोमभावैरेवसृजयत् सोमभागावुपदधाय प्रजा एव तद्यजमानसृज देवर्वा वेतनद्यज्ञस्यतेजस्तमभरभ्यः सोमभागायत् यज्ञस्य प्रतिष्ठामपश्यमभागानुपदधानि यज्ञस्य प्रतिष्ठत्यै सप्त सप्तधानि समेमध्ययम् प्रतिष्ठत्यै स्मृत्येवादित्यमसुजप्रतिरिति धर्मक्षम् प्रविति पृथिवीं प्रवेत्युक्तेन्द्रक्षिणतो भिजित्तेताः प्रजा अवप्राणा असृजरः पशेत्येव प्राणवदधाद्यन्तेत्यपानगम् सगुम् सत्प्रतिपयोधाय स्वत्रन्ताः प्रजाप्राणतेर्पानते पश्यन्ते शन्भतेर्न मिथुने अभवन्ताः सुत्रवदशेत्येव मिथुनमदधात्ताः प्रजा ैव प्राजनयत्ताः प्रजाः प्रजाताः प्रत्यतिष्ठन्ताप सुको जिमेष श्रिरशिवस्य रसेजित्येवेषु लोकेषु नाकसत्कर्मे देवास्सुभर्गम् लोकमायन्तन्नाकसदान्नाकसत्त्वैयन्नाकसद उपदधाय नाकसद्यदेव तद्यजमानस्वभर्गम् लोकमे सुवर्गो मे लोको कसतो यन्नाकसदमुपदधातिपृष्ठानामेव ते चो वरुन्धे पञ्चचोढावुपदधा चरस एव देवता भूतावष्म्यन्दाकमुपसेनथोतोपारीरेवैतायुमानस्यत्तमुपदध्याये देवताभ्य एवम् देवताभ्यावृष्टरिधायगात्रिमाक्ष धायापश्चात् प्राजेमुत्तमा उपदधापत्यम् भात्रधाति प्राणो नायुर्विधर्णे प्राणञ्चवायुश्च प्राणानामुत्तमो धर्ते तस्मात् प्राणश्चायुश्च प्राणानामुत्तमो नान्यामुत्त रामिष्टगामुपदध्यात् धन्यामुत्तरामिष्टगामुपदध्यात् योनाञ्जयजमानस्य न प्राणञ्चायश्चापि दध्यात्तस्मान् नान्योत्तरेष्टगोपधेया स्वयमाधर्णामुपदधात् यसौ पधत्ते स्वर्घ्रापयति प्राणमेवास्यां तथाभत्यो वा अश्वप्रजापदियमाधर्ना भवति प्राणानामुत्सृष्ट्यार्गस्य माकस्यानुख्यात्याे यद्धि गण्ये देवानामेव विक्रहान् भ्रमनविक्रमदमुत्तरदमुपदधाति तस्मात् उपचार